श्रीमद्भागवत् महापुराणं दशमस्कन्धम् अथ नौति तमोऽध्यायः भगवान् श्रीकृष्णके लीलाविहारका वर्णन् श्रीशोकुवाच सुखं शपुर्यां निवसन् द्वारिकायां श्रियः पतिः सर्वसम्पत्समृद्धायां जुष्टायां विष्णुपुङ्गमये सभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः कन्दुकादिर्भिर्म्येषु किरन्तीभिस्तटेन्दुभि नित्यं शङ्कुलमार्गायां मदत्युद्भिर्मतङ्गजै श्वालङ्कृतैर्भै स्वयं स्वै रथैश्च कनकोज्ज्वलै उद्यानोपवनाढ्यायां पुष्पद्रुमराजिषु निर्विसद्भृङ्गविहैर्णादितायां समन्ततः रेबे षोडशसाहस्रपत्नीनाभे कवल्लभ तावद्विचित्ररूपोऽसौ तद्गृहेषु महर्दिषु त्रोत्फुल्लोन्फलकल्हारकुवदाम्भोजरेणभि वासितामलतोयेषु कूजद्विजयकुलेषु च महा महामहोदय कुञ्च कुङ्कुमलिप्ताङ्गम् परिरब्धस्य योषिताम् उपगीयमानो गन्धर्वै मृदङ्गणमानकान् वादि यद्भिर्म वीणाम् सूतमागतबन्दिभिः सच्यमानोचितास्तार्भिर्हसन्तेभिः स्मरे चकै रति सिञ्चन् विचिक्रीडे यक्षेभिर्यक्षराडिव तां क्लिन्नवस्त्रविवृतो रुकुचप्रदेशा सिञ्चन्त उद्धृत बृहत्करं वरप्रसूनाः कान्तं स्मरे चकजीरसंयोपगृह्य जातस्मरोऽस्मिन् स वल्सद्वदनाविरेचुः कृष्णस्तु तत्तनं विसर्जितकुङ्कुमश्रकक्रीडाभिसङ्गधुत कुन्तलवृन्दबन्ध सिञ्चन्मुहुर्यो वतिभीं प्रतिषित्यमानो रेमे करेणुभिर्वेभपति परीतः नटानां नर्तकीनां च गीतवाद्योपजीविनाम् क्रीडालङ्कारवासां श्रीकृष्णोदात्तस्य च स्त्रियः कृष्णस्यैवं विरहतो गत्यालापेक्षितस्मितैः नर्मक्षेलीपरिस्पृङ्गैः स्त्रीणां कलुषिताधियः उचूर्मुकुन्दैकधियोगिरमुन्मत्तवज्जटं चिन्तयन्त्योरविन्दाक्षं तानि मे गदतशृणु नहिष्य उचुः कुररी विलपसि त्वं वीतनिद्रा न शेषे क्षपति जगति रात्रां ईश्वरो गुप्तबोध वयमिवसकी कश्चित् गाढनिर्भिन्नचेतां नलिनलेन हासोदारलीलेखितेन नेत्रे निमिलयसि नक्तमदृष्टबन्धु त्वं रोरवीशिकरुणं बचक्रवाकी दास्यं गता वयमिवाचित्पादजुष्टां किं वासं श्रिहसे कवरेण वोढुं भोभो भो, भो सदा निष्ठनसेदन्वन् न लब्धनिद्रोऽधिगतप्रजागरः किं वा मुकुन्दाप्रहितात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् त्वं यक्ष्मणां बलवतासि गृहीत इन्द्रो क्षीरस्तपो न निज दीधितेभिः शृणोसि कश्चिन्मुकुन्दगदितानि यथा वयं त्वं विस्मृत्य भो स्थगितगिरुपलक्ष्यसेन किं त्वाचरितमस्माभिर् मलयानिलते प्रियम् गोविन्दापाङ्गनिर्भिन्ने हृदीरसि न स्मरं दैतो दयितो यादवेन्द्रस्य नूनं शैव कं वयमिव भवान् ध्यायति प्रेमबद्धा आत्युत्तकण्ठशबलक्षयोष्मद्विधो बाष्पधरधाराः स्मृत्वा स्मृत्वा विसृजसे मुहुर्दुःखदत्प्रसङ्गः प्रियरावपदानि भासते मृतसञ्जीविकयालियागिरां करवाणी किमद्यते प्रियं वद मे वल्गितकण्ठकोकिलं न चलसि न वदस्योदारबुद्धे क्षितिधरचिन्तयसे महान्तमर्थम् अपि वत वसुदेवनन्दनाघ्रिं वयमिव कामयसे स्तनये स्वस्य धृताः कथिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रियिष्टभर्तुः यद्वद्वयं मधुपते प्रणयावलोकम् अप्राप्यमुष्टहृदया पुरुकर्षितास्म हंसः स्वागतमासितां पिबपयो बृजङ्गशौरे कथां दूतं त्वां नो विदाम कर्चिज्जन्दिञ्जितः स्वस्यास्त्य उक्तं पुरा किं वा नश्चलसौ हृदस्मर्तितं कस्माद्भजामो वयं क्षौद्रालापय कामदं विष्णुश्रियमृते सैवैकनिष्ठा स्यावाम् इति दृशेन भावेन कृष्णे योगेश्वरेश्वरे क्रियमाणेन माधव्यो लेभिरे परमां गतिम् चुतमात्रोऽपि यस्त्रीणां प्रसय्याकर्षते मनः दुर्गायोरुगीतो वा पश्यन्तीनां कुतः पुनः या संपर्यचरन् किं वर्ण्यते